कृष्णयजुर्वेदतैतिरीयशाखायाम् ब्राह्मणभागे तृतीयाष्टके प्रथमः प्रश्नः प्रारम्भः अग्निर्नः पादकृत्तिकाः नक्षत्रम् देवमिन्द्रियम् इदमासाम् विचक्षणम् न विराजन्विहोतना यस्य भान्तिरश्मयो यस्य केतवः स्येमाविश्वाभुवनानि सर्वाः स्वकृत्तिकाभिरभिसंवतानः नो देवस्व विदेशधातु प्रजापते रोहिणी वेदुपत्नीः विश्वरूपाबृहति चित्रभानोः सानो यज्ञस्य सु विदेशधातु यथा जीवेम शरदस्य वीराः रोहिणी देव्युतगात् पुरस्तागात् विश्वारूपाणि प्रतिपोदमाना प्रजापतिगमो यज्ञम् स्व गोराजा जनेशो आगन् शिवन्नक्षत्रम् प्रियमस्य धाम आप्यायमानोपहृधा जनेषु नेदः प्रजाञ्जिमाने दधातु यत्तेनक्षत्रम् मृगशीर्षमस्ति प्रियगोराजन्नाहाम् तस्मैते सो महविषाविधेम शुगदेशम् चतुष्पते आद्रयार्द्रप्रथमानयेति श्रेष्ठदेवानाम् मुद्रियानाहाम् नक्षत्रमस्याविषा विधेम ृणोतो पुनर्वतो न पुनरेताम् पुनर्नो देवायन्तु सर्वे पुनः पुनर्वोभिषा यजामः देवानदेवीर्वा कृष्णस्य पत्नी जगतः प्रतिष्ठा ीयम् देवानामप्ये तु बृहस्पतिर्प्रथमम् नक्षत्रमभितम्बभूव श्रेष्ठो देवानाम्भयम्नास्तु तिष्यः पुरस्तादृतमध्यतो नः बृहस्पतिर्नपरिपादपश्चात् पादेताम् शपदेश्यामो सर्वे सुजिष्टम् आश्रेषायेषामनि ये अन्तरिक्षम् पृथिवीम् क्षीयन्ति तेनः सर्पा साहवमागमिष्ठाः ते रोचने सूर्यस्यापि सर्पाः केजिलम् देवी मनः सञ्चरन्ति येषामाश्रेशानुन्तिकामम् तेभ्यः सर्पेभ्यो मुधमभ्योमितरो ये मगासो मनोजवसः सुकृतस्वृत्याः तेनो नक्षत्रेह वमागमिष्ठाः स्वधाभिर्यज्ञम् प्रयतम् दुषन्ताम् ये अग्निदग्धा येनदग्धाः एवम् लोकम् वितरः क्षियन्ति यज्ञकुंसु कृतम्बदत्फल्नाम सत्त्वम्पर्णमित्रचारो तन्त्वा वैगुंसनितारकुंसनीनाम् जीवाजीवन्तशेम येनेमाविश्वापवनानि सञ्जिता तस्य देवानुसंयन्त्येतः हर्यमाराजाचरस्तु युष्मान् फल्गुनीनामषारवीति श्रेष्ठदेवानाम् भगवो भगादित्वापि दुःखर्कुनेस्तस्य वित्तात् अस्मभ्यम् भगैप्रदाता भगवदेवी फर्कुनेराविवेश भगस्येत्तम् प्रसङ्गमेम यत्र देवैः समादम् मदेम आयातु देवस्वतोपयादो हिरण्येन सुहृदार्थेन आहनः सगो प्रेच्छन् वपुरम् पुण्यमच्छिणेन विश्वाः तन्न स्मष्टा तद्राविष्टा तन्नक्षत्रम् मोभिन्मोश्वे समनक्तु यज्ञम् वायुम् नक्षत्रमभ्यदृश्याम्भोरोणः वायुस्वदनुष्या शृणोदो तन्नक्षत्रम् भोरताम् अनुजानन्तु कामम् तथा तरे मधुर्याः क्षत्रो यन्त भीताः तदिन्द्रात्मीकृनुतान्तद्विशाखे धन्म देवानुमदन्द् यज्ञम् पश्चात्पुरस्तादभयन्नास्तु नक्षत्राणामधिपत्नीविशाखे श्रेष्ठादिन्द्रात्मीभुवनस्य गोपौतिष्यतोनुपवादमानौ अपक्षतन्मदरादिम् पूर्णापुष्टादपूर्णा पुरस्ताद्पौ पूर्णमासीदिकाय तस्यान् देवादिवसङ्गाम् श्री समर्थाय व्यजोषाः चोपमाना आप्यायेन्दीतु विश्वाः वरन्दुहायमानायज्ञम् बुद्ध्यात्महव्यैर्नमस उपसद्य मित्रम् देवम् मित्रदेवन्नास्तु अनोराधान हविषा वर्धयन्तः शरन्दी वेम शरदस्वीराः शत्रुन्नक्षत्रमुदगा पुरस्ताद् अनोराधासहिनैः क्षे इन्द्रोः ज्येष्ठा यस्मिन् वृत्तम् यत्रे तारा तस्मिन् वय मन्द्वाना सुन्दरेन्दृष्टिम् सुरन्द्राय वृषभाय तृष्णवेषाढाय सहमानाय विषुषे इन्द्राय ज्येष्ठामनुबन्ध्वानाम्पुनादीयमानाय लोकम् प्रजाम् वीरवतीम् विदेयराच नोभिर्नक्षत्रम् पशुभिः समग्रम् अहर्भूयामि यासाम् ता नो तन्न भवन्तु यज्ञम् वृदताम्पदाम् शुभ्रा कन्यायुदयसुभे वीर्यावदीः देवानभिमुपयान्ति यज्ञम् यस्मिन् ब्रह्माद्यमेत त्वम्भयद्विष्टाम् श्रीमन्दिष्वस्य त्रेधा विष्णुसुरुकाय विचक्रमे महेन्द्रम् पृथ्वे मन्दरिक्षम् तक्षणैतश्रवैच्छमानाय कृण्वति अष्टौ देवावसवसौम्यादास्व देवी रजताश यज्ञम् पान्द्रजतः परस्तात्सरे स्वस्ति यज्ञन्यः पान्दवसवः पुरस्तात्न्दश्रेष्ठाः पुण्यन्नक्षत्रमभिधरखचकुंसागन् नक्षत्रस्य राजा वर्णोऽधिराजा नक्षत्राणाकंशदभिषक्विशिष्टा तौ देवेभ्यः कृणतो दीर्घमायुः सहस्राभ्येषितानि दत्तः राजा वर्णोपयातो तन्मो विश्वे अभिसञ्जन्तु देवाः तन्मा नक्षत्रपंशदभिषग्नम् दीर्घमायुप्रतिरध्येषितानि अज एकमादृकात् प्रस्तात् विश्वाभूतानि प्रतिमोदमानः तस्य देवा प्रथमयन्ति सर्वेष्टपदा मृतस्य गोपाः श्रेष्ठो देवानाम्ब्राह्मणा स्वमपा सोम्या सहष्टपदाभिरक्षन्ति सर्वे चत्वार एकमभिकर्म देवाः सैदिकानुवदन्ति ते बुद्धिम् परिषत्यक्षन्ति नमसा पूषा रेवत्यन्वेदगन्धाम् तिष्ठपशुपादिवस्त्यौ मारुषाणा सुपयातान्यज्ञम् क्षत्रान् पशुवन् रक्षत रेवदीनः कावो नास्वागुमन्वेदभूषा अन्नगो रक्षन्तौ बहुधा विरूपम् पादगो समितान्यजमानायज्ञम् तरश्विनावश्वैजोपयाता सुभङ्गमिष्ठौ सुगमे धरस्वैः सन्नक्षत्रिमोहविषायदन्तौ मध्वासंभृक्तौ हो विश्वस्य दोतामृतस्य गोपो तव नक्षत्रम्पयाताम् अश्वभ्याम्भरन्तु तद्यमो राजा भगवानुचिष्टाम् योगस्य राजा महतो महाहि सुगन्मपन्धामभयम् गुणोतु तस्मिन् नक्षत्रे यमयेति राजाः तस्मिन्नेवञ्जन्तदेवाः ततश्चायजाम अवात्मानम् अवा भरणेर्भरन्तु ी स्मानन्दम् परितातनादेभो विश्वतो हुए हे नो नक्षत्रेहवमागमेतम् हयन्देवी ब्रह्मणा संविधानाः स्वरत्नासो देववीन्दधानाः रात्रेः विषा वर्धयन्तः अतिमात्मा नमतिमत्यागमेम प्रत्युपदर्श्या इति पृच्छन्तीति हितादिवः अपोमही कृणतेक्षषा तनु ज्योतिष्कृतसोनरीश्र्या स च सूर्या स चावृत्यन्नक्षत्रमर्चिमत् नवेदुषोऽभ्युषसूर्यस्य च संभक्तेन गमेमहि तन्मा नक्षत्रमर्चिमत् धानुभत्ते च उच्चरत् वैज्ञमिहागमत् प्रणक्षत्राय देवाय इन्द्रायेन्द्रमो इंद् हामहे सदत्सवितासुवत्सलम् इष्टिताम् वीरवत्तमम् उदत्यञ्चित्रम् अधिधर्मपुरुष्यदमही मोषमातरम् ष्णुः भवः अनुनार्वागामयता अन्नादो देवानागस्वामिति कृत्तिराभ्यः पुरोढा सुष्टागवालन्नरमवत् ततोऽपि सोऽन्नादो देवानामभवत् अग्निर्वै देवानामन्नादः यद्देवानामन्नादः एवमहवा एषमनुष्याणाम् वेद सोत्रजुहोति रये स्वाहा कृत्तिकाभ्य स्वाहा अम्बा यै स्वाहा दुलायै स्वाहा दत्यै स्वाहाभ्रिञ्जयी स्वाहा मेघयञ्ज्यै स्वाहा वृषिञ्ज्यै स्वाहा चुकलीटा यै स्वाहेति प्रजापतिः प्रजा अस्मात्सृष्टापराजीरायिन्न सागो रोहिणीमभ्यध्यायत स्वकामयत उपमावर्तयेत समेनया गच्छेये स एतम् प्रजापतये रोहिण्यै चरण्यरवद ततोऽपि सादमुपावर्तत समेनया गच्छत अपहवा एनम् प्रियमावर्तते स प्रियेण गच्छतेन हविषायुजते युजेन देवम् वेद सोऽत्रजहोति प्रजापतये स्वाहाहिण्यै स्वाहा रोचमानायै स्वाहा प्रजाभ्यस्माहेतिकामयता ओषधीनागोराज्यमभिजयशीर्षाय स ओषधी नागोराज्यमभ्यजेत समानानागो हविराज्यमभिजयति स एतेन हविषायुजते युजेन वेद सोत्रजहधि सोमा यस्वाहा मृगशीर्षास्वाहा मृगाभ्यस्मा औषधीभ्यस्वाहा स्वाहाभिजित्यै स्वाहेतित्रायात्रायै प्रयङ्गीभवति वेद सोक्तति पुत्रास्वाहात्रायै स्वाहा पिन्वमानायै स्वाहा पशुभ्यस्वाहेति रक्षा वा इयमलोमकासीद प्रजा ये ये प्रजा दे स्वाहा प्रजाहेस्पति ेषाभ्यारवन् आनेताभिरेव देवताभिर्वाणयन् एताभिरहवै देवताम् भ्रातृर्यति एतेन हविषायजते योजेन देवम् वेद श्रोतृज्योति सत्त्वेभ्य स्वाहाश्लेषाभ्यस्वाहाशोकेभ्य स्वाहेति लोकाः कामयन्तलोकाध्यमेति एतम् पितृभ्यो मखाभ्यः प्रोणा शिगं षट्कपालिन्यपन्न ततो वैतेऽपि त्रिलोकार्ध्वन्न त्रिलोके हवार्ध्नोति एतेन हविषायजते युजेन देवम् वेद श्रोतृज्योति पितृभ्यस्वाहा मघाभ्यः स्वाहा नखाभ्यः स्वाहा मदाभ्यः स्वाहार्नदीभ्यः स्वाहेति हर्यमामागामयत यषुमान्स्यामिति स एतमर्यम्णे फल्गुनीभ्याम् निरण्रवद ततोऽपि सपुषमान भवतु सुषमान् हवीभवति हेतेन हविषायुजतेन देवम् वेद स्वात्रजहति हर्यम्णे स्वाहा फल्गुनीभ्य स्वाहा पशुभ्य स्वाहेति भगववागामयत भगी श्रेष्ठीदेवानागस्यामिति ्रेष्ठी देवानामभवत् हवी हवी श्रेष्ठीसमानानाम् भवति दे, देवं वेदा श्रोत्र जहोति भगाय स्वाहा फल्गुनीभ्यास्वाहा श्रीचाय स्वावितास्मै श्रद्धेवा सविता भवद श्रद्धवास्मै मनुष्या दधते सविता समानानाम् भवति एतेन हविषा विजते अनुजेन देवम् वेद स्वातृजहति स्वाहा वृणते स्वाहा स्वाहा स्वाहेति अष्टावाहकामयत चित्रं कष्ट्रे चित्रायै प्रोढाशमष्टाकपालम् वेद श्रोत्रे स्वाहाय स्वाहाय स्वाहा प्रजाहि स्वाहेति वायुर्वाहकामयत आमचारमेषु लोकेष्वभिजे यदि स एतद्वायवे निष्ठ्यायीष्ट्यै दुग्धम्बयो निर्ववद ततो वैधकामचारमेषु लोकेष्वभ्यज आमचारेषु लोकेष्वभिज इति य एतेन हविषाजिते रुचेन देवम् वेद स्वत्रि वायवे स्वाहा निष्ठ्यायै स्वाहाचारा स्वाहाभिज स्वाहेतिकामयेताम् श्रीष्यम् देवानामभिजये वेति तावेदमिन्द्राद्रिभ्याम् विशाखाभ्याम् प्रोढाशमेकादशकपालम् श्रीश्चेद श्रोत्री स्वाहा विशाखाभ्यास्वाहा श्रीश्चाय स्वाहापति कामोऽपौ ओ नमासी कामहाद्य एनकामेन ोत्र निद्रा स्वाहानुराधेऽप्य स्वाहाधेयाभिजित्यै स्वाहेतिष्ठन् देवानामभिजय जैष्ठनानामभिजयति येतेन हविषायजतेन देवम् वेद श्रोत्रजहोति इन्द्रा स्वाहा ज्येष्ठायै स्वाहा र्वाकामयता प्रजापदये स्वाहाय स्वाहा प्रजायै स्वाहेति आभोवा समुद्रम् काममभिजयेति एतमुद्भ्यो षाढाभ्यश्चिरण्यरपन्न ततो वैताः समुद्रम् काममभ्यजयिन् समुद्रको हविकाममभिजयति एतेन हविषायुजते यो चेन देवम् ेदृज्योति स्वेभ्यो देवेभ्य स्वाहाभ्य स्वाहा हनुवजय्या स्वाहा स्वाहेति ब्रह्मयता स्वाहाभिजिते स्वाहा ब्रह्मलोकाय स्वाहाभिजित्ये स्वाहे शुष्ण कामयता स्वाहा अश्रोणायी स्वाहाय स्वाहा स्वाहेति अक्रम् देवता नाम् परियामेति भ्यश्रविष्टाभ्यः प्रोढाशुमष्टाकपालन्येवतानाम् पर्यायन् अग्रगमहवीषमानाम् पर्येति एतेन अविषायजते दे योजेन देवम् वेद सोत्रजहोति वसुभ्यस्वाहा श्रविष्टाभ्यस्वाहा अग्रा इस्वाहा स्वाहेति द्रोहाकामयता दृढोऽलस्यामिति स्वाहेति हजो वा एकपादकामयता तेजस्वी ब्रह्मवर्त्यसी स्यामिति स एतमजा एकपदेभ्योष्टपदेभ्यश्चिरण्यरभवत् ततोऽपि स तेजस्वी ब्रह्मवर्त्यस्य भवत् एतेन योगामयता इमाम् प्रतिष्ठाम्पदेभ्यः प्रोढाशम्भूमिकमारन्यै स इमाम् प्रतिष्ठामविन्दताष्ठाम् विन्दते एतेन दे हविषायजते दे, योजेन देवम् वेद स्तोत्रुज्योति अहये वृद्धिया दे स्वाहा प्रोष्ठपदेभ्य स्वाहायै स्वाहेति पूषावागामयता स एतम् कूष्णेरेवत्यै जलभवत् ततोऽपि स पशुमानभवत् पशुमानहवीभवति यतेन हविषायजते योजेन देवम् वेद स्तोतृज्योति कूष्णे स्वाहा रेवत्यै स्वाहा पशुभ्यस्वाहेति अश्विनौ वा कामयेताम् श्रोत्रस्मिनापतिरो स्यावेदि श्रोत्रस्मिनापतिरावभवताम् श्रोत्रस्वीह वा देवम् वेद श्रोत्रजहति अश्विभ्या स्वाहा अश्वभ्या स्वाहा श्रोत्राय स्वाहा श्रुति स्वाहेति यमो वा कामयताजये श्चेभ्यस्वाहा <Sess> राज्याहाभिजित्यमावास्याया कामेनैव कामकोंसमर्थयति क्षिप्रमेण कोंसकाम उपनमति येन कामेन यजते स्वप्रजहोयै स्वाहाकामाय स्वाहा गत्यै स्वाहेति चन्द्रमावा कामयत अहोरात्रानत्सरमाप्वा चन्द्रमधः सायुज्यकोंसलोकतामाप्नुयामिति एतम् चन्द्रमधे प्रति प्रौढासम्पञ्च दशकमालन्यमासान्मासानुदोंसंवत्सरमाप्वा चन्द्रमधस्वायच्छत्रान्धमासान् चन्द्रमधस्वाय चिस लोकतामाप्नोति ये तेन हविषा इति ते योजेन देवम् वेद सोऽत्र जाति चन्द्रमसे स्वाहा प्रदीदिश्यायी स्वाहा अहोरात्रेभ्यस्वाहार्धमासेभ्यस्वाहासेभ्यस्वाहतृभ्यस्वाहा अवत्सराय स्वाहेति अहोरात्रे वामयेताम् अत्यहोरात्रे अमुच्ये अहोरात्रे आ आप्नुयातामितिहोरात्राभ्यारवदाम् द्वयानाम् व्रीहीणाम् शुक्लानाहा कृष्णाना स्वात्यो दुग्धे श्वेतायै च कृष्णायै च तदवीदे अत्यहोरात्रे नैने अहोरात्रे आ आप्नुताम् हरिहवा ै नमहो रात्रे आप्नुतः एतेन हविषायुजते योजेन देवम् वेद स्वोत्र जहोति अह्ने स्वाहा रात्र्यै स्वाहा स्वाहेति विषा वा अकामयता प्रियादित्यस्य सुभगाः स्यामिति चैतमुषते चरण्यरभवत् ततो वैसा प्रियादित्यस्य सुभगाभवत् प्रियो हवैषमानानाग् सुभगो भवति एतेन हविषायुषते योजेन देवम् वेद सोत्र जहोति विषते स्वाहा विशिष्यै स्वाहा विच्छन्त्यै स्वाहा विष्टायै स्वाहेति तदेतस्मै नक्षत्राविश्रन्भवति एवमूयासमिति तथा हवा एतद्देवानाम् एव एष मनुष्याणाम् भवति हविषा योगेन देवम् वेद स्वत्रजोति नक्षत्राय स्वाहोदेशिते स्वाहा स्वाहो स्वाहा स्वाहा स्वाहा वाह तेजसे स्वाहा अे स्वाहाय स्वाहेतिकामयता नक्षत्राणाम् प्रतिष्ठा स्यामिति नक्षत्राणाम् प्रतिष्ठाभवत् देवम् वेद श्रोत्रीयाय स्वाहा नक्षत्रेभ्य स्वाहा अधिष्ठायै स्वाहेति अथैतमदित्यै जुरन्नर्भवति ययम् वा अदितिः अस्यामेव प्रतिष्ठति सहोत्र जुहाति अदित्यै स्वाहा अप्रतिष्ठायै स्वाहेति अथैतम् विष्णवे जुरन्नर्भवति यज्ञो वै विष्णुः यज्ञमेवान्तप्रतिष्ठति सहोत्र जुहाति विष्णवे स्वाहायज्ञाय स्वाहायै स्वाहेति इति तृतीयाष्टके प्रथमः प्रश्नः समाप्तः